अथ वैकृतिकं रहस्यं ऋषिर्वाच ॐ त्रिगुणातामसीदेवी सा तु कीयासिधोदितां सा सर्वा चण्डिका दुर्गां भद्रा भगवतिर्यते हरे महाकाली तमोगुणां मधुकैटमनाशार्थम् यां तुष्टा वाम्बुजासुरः दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा विशालया राजमानां त्रिंसल्लोचनमालया पुरन्दसनद्रष्टा सा भीमरूपापि भूमिप रूपसौभाग्यकान्तिनां चक्रशङ्खशुभुम्भुषुण्डिभे परिघं कार्मुखं शेषं निश्च्योतद्रुधिरं दधौ एषा सा वैष्णवी माया महाकाली दुरत्यया आराधितावशीकुर्यात् पूजा कर्तुश्चराचरं सर्वदेवशरीरेभ्यो याविर्भूतामितप्रभा त्रिगुणा सा महालक्ष्मी साक्षान्महिषमर्दिनी श्वेताननानीलभुजा सुेतस्तनमण्डला रक्तमध्या रक्तपादा नीलं जङ्घोरुरुन्मदा सुचित्राजनां चित्र माल्याम्बरविभूषणं चित्रानुलेपना कान्ति रूपसौभाग्यशालिरी अष्टादशभुजा पूज्या सा सहस्रभुजा सती आयुधान्यत्र वक्षन्ते दक्षिणाथकरक्रमान् अक्षमाला च कमलं वाणोशीकुलिशं गदा चक्रं त्रिशूलं परशु शङ्खो खण्टा च तक्रदण्डश्चर्मचापं पानपात्रं कमण्डलुः अलङ्कृतभुजा मेभिरायुधैकमलासरां सर्वदेवमयिमीषां महालक्ष्मीमिमां नृप पूजये सर्वलोकानां स देवानां प्रभुर्भवेन् गौरीदेहासमुद्भूता या सात् सत्त्वैकगुणाश्रया साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी दधौ चाष्टभुजाबाळ मूसले शूलचक्रवे शङ्खं घण्टां लाङ्गलं च कार्मिकं वसुधाधिप एषा सम्पूजिता भक्त्या सर्वज्ञत्वं प्रयक्षति नृशुम्भमथिनी देवी तुम्भासुरिनिवर्हिणी इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिव उपासनं जगन्मातुः पृथगासां निशामय महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती दक्षिणोत्तरयो पूज्ये तिष्ठतो मिथुनत्रयं विरिञ्चे सरया मध्ये रुद्रो गौर्या च दक्षिणे वामें लक्ष्मी लक्ष्म्या श्रीकेश पूरपुरतो देवतात्रयम् अष्टादशभुजा मध्ये वामे चाषादशानना दक्षिणेष्टभुजा लक्ष्मी महतीती समर्चयेन् अष्टादशभुजा च एषा यदा पूज्या नराधिप दसानना चाष्टभुजा दक्षिणोत्तरयोस्तदा कालमृत्यौ च सम्पूज्यौ सर्वादिष्टप्रशान्तये यदा चाष्टभुजा पूज्या शम्भासुरनिवर्षिणि नमास्यासक्त पूज्या तदा रुद्रविनायकौ नमो देव्या इति स्तोत्रे महालक्ष्मीं समर्चये नवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रया अष्टादशभुजा चैषा पूज्या महिषमर्दिरे महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ईश्वरे पुण्यपापानां सर्वलोकमहेश्वरी मयि शान्तकरीयेन पूजितासात् जगत्प्रभो पूजये जगतां धात्रीं चण्डिकां भक्तवत्सराम् अर्घ्यादिभिरलङ्कारै गन्धपुष्पैतथाक्षतै धूपैदीपैश्च नैवेद्यै नानाभक्षिसमन्वितै युजराक्तेन बलिनां मांसेन सुर्यालिप बलिमांसादिपूजेयं विप्रवरज्यामयेरितां तेषां किल सुरामांसैर्लोक्ता पूजानिपध्वजे प्रणामात्मनीयेन चन्दनेन सुगन्धिनां सकर्पुरैश्च ताम्बूलैर्भक्तिभावसमन्वितये वामभागे ग्रतो देव्या छिन्नशीर्षं महाशुरं पूजयेन्महिषं येन प्राप्तं सायोज्यमीशया दक्षिणे पुरतः सिंहं समग्रं धर्ममीश्वरं वाहनं पूजये देव्या धृतं येन चराचरं कुर्याच्च समनं धीमा तस्या एकाग्रमानसः ततः कृताञ्जलिर्भूत्वा तुवीतचरितैरिवै एकेन वा मध्यमेन नैके नेतरयोरिह चरितार्धं तु न जपे जप छिद्रममाप्नया तदक्षिणा नमस्कारान् कृत्वा मुरुधिकृताञ्जलिः क्षमापये जगद्धात्रिं मुहुर्मुहुर्तन्ध्रितः प्रतिश्लोकं च जुह्यात् पायसं तिलसर्पिषा द्विह्यास्तोत्र मन्त्रैर्वा चण्डिकायै शुभं हविः भोयो नाम पदैर्देवीं पूजयेषु समाहितः प्रयतप्राञ्जलि प्रण्व प्रणयम्यारो चात्मनि सुचिरं भावये दिशां चण्डिकां तन्मयो भवेत् एवं य पूजयेद्भक्त्या प्रत्यहं परमेश्वरीं भुक्त्वा भूगान यथा कामं देवी सायोज्यमाप्नुयात् यो न पूजयति नित्यं चण्डिकां भक्तवत्सरां तस्मीकृत्याश्च पुण्याली निर्दहेत् परमेश्वरी तस्मात् पूजय भूपाल सर्वलोकमहेश्वरीं यथोक्तेन विधानेन चण्डिकां सुखमाप्यसि ॐ श्रीदुर्गादेव्यै नमः